तः पवमानानामेवाभ्यारोह स वै खलु प्रस्तोतासामप्रस्तौति स यत्र प्रस्तुयात्तसतोमा सद्गमय तमसोमा ज्योतिर्गमय मृत्योर्मा मृतङ्गमयेति शयगा हासतो मृत्युर्वा असत्सदमृतम् मृत्योन्मा मृतङ्गमयामृतम् मा कुर्विद्य वै तदाह तमसोमा ज्योतिर्गमयेति मृत्युर्वै तमो ज्योतिरमृतम् मृत्योन्मा मृतङ्गमयामृतम् मा कुर्विद्य वै तदाह मृत्योन्मा ङ्गमयेति नागतिरोहितमिवास्त्यथयानितराणि स्तोत्राणि तेष्मात्मनेद्यमागमये तस्मादु तेषु वरं वृणीतयङ्कामङ्कामयेतदग्रे स एष एवं विदुद्धातात्मनेमायजमानाय वायङ्कामङ्कामयतेतमागायदि तद्धैतल्लोकजिदेवलोक्यताया आशास्ति य एवमेतत्सामवेदा हो वाचैतद्भैतदक्षरङ्गार्गिब्राह्मणा अभिवदन्त्यस्थो लमणस्वमधीर्घमदोहितमस्मे हमच्छायमतमो वायवनाकाशमसङ्गमरसमगन्धम चक्षुष्कम श्रोत्रमवागमन णममुखममाक्रमणन्तरमभाह्य न तदश्नाति किञ्चन तदश्नाति कश्चन वेदस्य वा अक्षरस्य प्रशासने गार्गिसु न्द्रमसौ विधृतौ तिष्ठत एतस्य वा अक्षरस्य प्रशासने गा गिद्या वा पृथिव्यौ विधृते तिष्ठत एतस्य वा अक्षरस्य प्रशासने संवत्सरा इति विधृता स्तिष्ठन्त्येतस्य वा अक्षरस्य प्रशासने गार्गि दन्ते श्वेतेभ्यः पर्वते प्रतीच्योन्यायाञ्च दिशमन्वेतस्य वा अक्षरस्य प्रशासने गागि ददतो मनुष्याः प्रसगसन्ति यजमानन्देवाधर्वीम् पितरोन्वायत्ता तस्मै नमोऽस्त्वब्रह्मराजये अधातोधीत्याधीत्या निराकरणम् प्रतीकम् मे विचक्षणम् जीह्वा मे मधु तद्वाये तदक्षरङ्गार्यदृष्टम् द्रष्टश्रुतद्रमतम् मन्त्रविज्ञातम् विज्ञातृ नान्यदतोस्ति द्रष्टृान्यदतोऽस्ति श्रोतृ नान्यदतोऽस्ति मन्त्रे क्षरे गार्गोश्च प्रोश्चति ब्रह्मागन्धे बहुन्येभै यस्मा नस्कारेण मुच्ये धन्न वै जातु युष्माकमिमम् कश्चिद् ब्रह्माद्यम् चेतेति ततो हवाचक्रव्यपररामा ठिता हरिना